अथ चतुश्चत्वारिंशः सर्गः युध्यतामेव तेषाम् तु तदा वानर रक्षसाम् रात्रिः प्रवृत्ता प्राणहारिणी अन्योन्यम् बद्धवैराणाम् घोराणाम् जयमिच्छताम् सम्प्रवृत्तम् निशायुद्धम् तदा वानरक्षसाम् राक्षसोऽसीति हरयो वानरोऽसीति राक्षसाः अन्योन्यम् समरे जघ्नस्तस्मिंस्तमसि दारुणे हतदारय चैहीरि कथम् विद्रवसीति च एवम् सुतु मुलः शब्दस्तस्मिन् सैन्ये तु शुश्रुवे काला काञ्चन सन्नाहास्तस्मिंस्तमसि राक्षसाः सम्प्रदृश्यन्त शैलेन्द्रादीप्तौषधिवना इव तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्च्छिताः परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान् देहयान् काञ्चना पीडान् ध्वजांश्चाशीविशोपमान् वानराबलिनो युद्धे क्षोभयन् राक्षसीञ्चमूम् चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्च्छिता लक्ष्मणश्चापि रामश्च शरैराशीविशोपमैः दृश्यादृश्याणि रक्षांसि प्रवराणि रिजघ्नतुः तुरङ्गखुर विध्वस्तम् रथ नेमि समुत्थितम् रुरोधकर्णनेत्राणि धरणीरजः वर्तमाने तथा घोरे सङ्ग्रामे ऋधिरोघा महाघोरानद्यस्तत्र विशुश्रुवुः ततो भेरीमृदङ्गानाम् पणवानाम् च निस्वनः शङ्खलेमिस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः हतानाम् स्तनमानानाम् राक्षसानाम् च निःस्वनः शस्तानाम् वानराणाम् च सम्बभूवात्र दारुणः हतैर्वानरमुख्यैश्च निहतैः पर्वताकारै राक्षसैः कामरूपिभिः शस्त्रपुष्पोपहारा च तत्रासीद्युद्धमेदिनी दुर्ज्ञेया दुर्निवेशा च शोणितास्त्रावकर्दमा सा बभूवनिशाघोराहरिराक्षसहारिणी कालरात्रीव भूतानाम् सर्वेषाम् दुरतिक्रमा तस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे राममेवाभ्यवर्तन्त संहृष्टाः शरवृष्टिभिः तेषामापतताम् शब्दः क्रुद्धानामपि गर्जताम् उद्वर्त वज्रदम्ष्ट्रो महाकायस्तौ चोभौ सुखसारणौ ते तु रामेण बाणौघैः सर्वमर्मसुताडिताः युद्धादपसृतास्तत्र सावशेषायुषो भवन् निमेषान्तरमात्रेण घोरैरग्निशिखोपमैः दिशश्चकार विमलाः प्रदिशश्च महारथः ये राक्षसा वीरा रामस्याभिमुखे तेऽपि नष्टाः समासाद्य पतङ्गा इव पावकम् सुवर्णपुङ्खैर्विशिखैः सम्पतद्भिः समम् ततः तेन शब्देन महता त्रिकोटः कन्दराकीर्णः प्रव्याहरदिवाचलः गोलाङ्गोलामहाकायास्तमसातुल्यवर्चसः सम्परिष्वज्य बाहुभ्याम् भक्षयन् रजनीचरान् अङ्गदस्तुरणे शत्रून् निहन्तुम् समुपस्थितः रावणिम् निजघानाशु सारथिम् च अङ्गदेन महात्यस्तत्रैवान्तरधीयत तत्कर्मवालिपुत्रस्य सर्वे देवाः सहर्षिभिः तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ प्रभावम् सर्वभूतानि विदुरिन्द्रजितो युधि ततस्तेतम् महात्मानम् दृष्ट्वा तुष्टाः प्रदर्शितम् ततः प्रहृष्टाः कपयः सुग्रीव विभीषणाः साधु साध्वितिनेदुश्च दृष्ट्वा शत्रुम् पराजितम् इन्द्रजित्तुतदानेन निर्जितो भीमकर्मणा संयुगे वालिपुत्रेण क्रोधम् चक्रे पापो रावणीरणकर्षितः ब्रह्म वीरो रावणिः रामम् च लक्ष्मणम् चैव घोरैर्नागमयैश्वरैः बिभेदसमरे क्रुद्धः सर्वगात्रेषु राक्षसः मायया संवृतस्तत्र मोहयन् राघवौ युधि अदृश्यः सर्वभूतानाम् कूटयोधीनिशाचरः बबन्धशर बन्धेन भ्रातरौ रामलक्ष्मणौ तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैश्वरैः सहसाभिहतौ वीरौ तदा प्रेक्षन्तवा नराः प्रकाशरूपस्तु यदा न शक्तस्तौ बाधितुम् राक्षस राजपुत्रः मायाम् प्रयोक्तुम् समुपाजगामवबन्धतौ राजसुतौ दुरात्मा इत्यादर्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुश्चत्वारिंशः सर्गः